श्रीहर नम अत चतुर्दशोध्याय परीक्षिवाच रजस्तमस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः नारायणे भगवति कथमासी दृढामतिः देवानां शुद्धसत्त्वानां ऋषीणां श्यामलात्मनां भक्तिर्मुगुन्दचरणेन प्रायेणे उपजायते रजो समसङ्ख्याता पार्थिवैरिकजन्तवः तेषां ये श्रेयो वै मनुजातयः प्रायो मुमुक्षुवस्तेषां केशैनैव द्विजोत्तम मुमुक्षूणां सहस्रेषु कश्चिन्मुच्येत सिद्ध्यति मुक्तानामपि सिद्धानां नारायणपरायणः सुदुर्लभ प्रशान्तात्मा कोटिष्वपि महामुने वृत्रस्तु सकतं पपः सर्वलोकोपदापनः इत्थं दृढमति कृष्ण आसीत् सङ्ग्रामवुल्भणे अत्र नः संशयो भूयान् श्रोतुं कौतूहलं प्रभो यः पौरुषेण समरे सहस्राक्षम् अतोक्षयत् सुतौ वाच परीक्षितोत्तसंप्रश्नं भगवान् भातरायणिः निसंयश्रद्धधानस्य प्रतिनन्द्यवचो ब्रवीत् श्रीशुकौ वाच इतिहासमिमं यथा श्रुतं द्वैपायनमुखात् नारदाद्देवलाधबी आसीत् राजा सार्वभौम सुरसेनेषु वै नृप चित्रकेतुरिति ख्यातो यस्यासीत् कामधुग्मही तस्य भार्या सहस्राणां सहस्राणि दशा भवन् सन्तानि नृपो न लेभेतासु सन्ततिम् रूपदार्यवयो जन्म विद्यैश्वर्यश्रियादिभिः सम्पन्नस्य गुणैः सर्वै चिन्तावन्त्यापरे तेरभूत् न तस्य सम्पदः सर्वं महिष्यो वामलोचनाः सार्वभौमस्य भूश्चेयम् अभवन् प्रीतिहेतवः तस्य ये कदातु भवनम् अङ्गिरा भगवान् ऋषिः तम्भूजयित्वा विधिवत् प्रत्युत्थान अर्हणादिभिः कृतादित्यमुपासीदत् सुखासीनं समाहितः महर्षिस्तमुपासीनं प्रश्रयावनतं शितो प्रतिपूज्य महाराज समाभाष्येधमब्रवीत् अपि तेनामयं स्वस्ति प्रकृतीनां तथात्मनः यतः प्रकृतिभिर्गुप्तं पुमान् राजाभिसप्तभिः आत्मानं प्रकृतिश्वद्धा निधाय श्रेय आप्नुयात् राज्ञा तथा प्रकृतयो नरदेवाहिताधयः अभिधारा प्रजामात्या प्रोद्ध्यातमन्त्रिणः पौराजानभधा भूपा आत्मजावसवर्तिनः यस्यात्मानुवसश्चेत्स्यात् सर्वे तद्वसघायि लोकासपालायश्चन्ति सर्वे बलिमतधृताः आत्मनः प्रीयतेनात्मा परतस्वतये वा लक्षये लब्धकामं त्वां चिन्तया सबलं मुखम् एवं विकल्पितो राजन् विदुषा मुनिनापि प्रश्रयावनतोभ्याः प्रजाकामस्तथो मुनिं चित्रकेतुरुवाच भगवन् किं न विदितं तपोज्ञानसमाधिभिः योगिनां ध्वस्तपाना बहिरन्ध्रसुरीरिषु तथापि पृच्छतो भ्रूयां ब्रह्मन् आत्मनि चिन्तितं भवतो विदुषश्चापि चोदितस्तदनुज्ञया लोकपालैरपि प्रार्थया साम्राज्य ऐश्वर्यसम्भदः न नन्दयन्त्यप्रजं मां शुतृत्काममिवा परे ततः पाहि महाभाग पूर्वैः स कथं तमः यथातरे मधुस्तारम् प्रजया तद्विदेहिनः श्रीसुख उवाच इत्यर्तितः स भगवान् कृपालो ब्रह्मणः सुतः शपयित्वा चरुन् द्वाष्ट्रम् ज्येष्ठा श्रेष्ठा च या राज्ञो च भारत नाम्नां कृतत्युतिस्तस्यै यज्ञो चिष्टमधा द्विजहा अतः नृपतिं राजन् भवितैकस्तवात्मजहान् हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो सापि तत्प्रासनाधवे चित्रके चित्रकेधोरधारय गर्भं कृध द्युतिर्देवे कृत्तिगात्नेरिव आत्मजं तस्या अनुदिनं गर्भ शुक्लपक्षयि वोढुभः ववृते सुरसेने स तेजसासनकैनृप अत कुमारसमजायत जनयन्सुरे सेनानां परमामुधं, परमां मुधं हृष्टो राजकुमारस्य स्नातसुषीरलङ्कृतः वाचयित्वा शिशो विप्रै कारयामासजातकं तेभ्यो हिरण्यं रजतं वासांसि आभरणानि च ग्रामान् गजान् प्राधाद् धेनुनामर्बुदानि षट् ववर्षकाममन्येषां पर्जन्य इव देहिनां धन्यं यशस्यं कुमारस्य महामनाः कृश्रलब्धेत राजर्षेस्तनये नुदिनं पितुः यथा स्वस्य कृश्राब्धे धने स्नेहोन्ववर्धत मातुस्त्वतितरां पुत्रे स्नेहो मोघसमुद्भवः कृतद्युते सपत्नीनां प्रजाकामज्वरोऽभवत् चिंत्रक्रीते धारे प्रजाती न तथान्यु सज्जे बालं लालय तोन्वर्यतप्यना आनपत्येन आनपत्यन दुखें राोनाधर च दिगप्रजां स्त्रियं पापां पत्युषागृहसम्मतां सुभ्रजापि सपत्नीभिर्धासीमिव तिरस्कृतां दासीनां को नु सन्ताप स्वामिनः परिचर्ययाम् अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः एवं सन्तह्यमानानाम् स पुत्रसंभता पुत्रसम्भत राज्ञो सम्मतवृत्तीनां विद्वेषो बलवान् भूत् विद्वेषनष्टमथयन् स्त्रियो दारुणचेतसः धरं धतुः कुमाराय धुर्मर्षानृपतिं प्रति हृधद्युधिरजानन्ती सपत्नीनामघमहत् सुप्तये वेति सञ्चिन्त्य निरीक्षव्यचरद् गृहे स सुचिरं बालमुपधार्य मनीषिणे पुत्रमानयमे द्रे भद्रे, भद्रे धात्रीमचोदयान मुफ सान मुप्रजा च वोत्चन प्राणेन्द्रिय आत्मिस््यक्त हतास्मीत्य भुवि तस्यास्तथा कर्ण्यभृशातुरं स्वरं ङन्त्याकारभ्यामुरवुच्चकैरपि प्रविश्य राज्ञी त्वरयात्मजान्तिकम् ददर्श बालं सखसामृतं सुतम् ततो नृपान्तपुरवर्तिनो जन नरास्य नार्यश्च निमस्य रोदनम् आगत्य तुल्यौ व्यसनासु दुःखितास्ताश्च व्यलीकं रुरुधु कृधागसः श्रुत्वा मृतं पुत्रमलक्षिदान्तकं विनष्टदृष्टि प्रपतं स्खलन् विमोचितो नु प्रकृति द्विजैर्व्रतः पपाद मृतस्य विस्त्रस्त शिरोरुहाम्बरः दीर्घम् स्वसन् भाष्पकलोपरोधतो वृद्धघण्टो न स पतिं निरीक्ष्यो रुसुचार्पितं तधा मृतं च बालं सुतमेकसन्ततिं जनस्य राज्ञी प्रकृतेश्च हृज्जलं सती दधानविललापचित्रधा तनद्वयं कुङ्कुमघन्तमण्डितं निषिञ्चति साज्ञनभाष्पद्बिन्दुभिः विकीर्य केशान् विगलस्रजः सुतं शिशोचित्रं कुररीवसुस्वरम् अहो वितास्तस्त्वमतीव बालिसो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे परेऽनुजीवस्त्यपरस्य याम्रतेर्विपश्य यश्चेत्त्वमसि ध्रुवः परः स्वयं कृतस्ते तमिमं विवृश्चसिं त्वं च मां कृपणामनाथाम् त्यक्तुं विचक्ष्वपितरं तव शोकतप्तम् अञ्जस्तरेम भवता व्रजतुस्तरं ज्ञ द्वान्तं न करुणेन यमेन दूरं। उत्तिष्ठता तत इमे शिशवो व्यवस्या त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् सुप्तश्चिरम् ह्यसनया च भवान् परीतो भुङ्क्ष्वस्तनम् बिभशुचो हरनस्वकाना नाहं तनूज ददृशे मुग्धस्मितं मुदितवीक्षणमाननाब्जं किं वा गतोस्य पुनरन्वयमन्यलोकं नितोगृणेन न शृणोमि कलागिरस्ते श्रीसुक उवाच विलपन्त्यामृतं पुत्रमिति चित्रविलापनैः चित्र तप्तो मुक्तकण्ठोरुरोधः तयोर्विलभतो सर्वे दम्पत्योतधनोव्रताः रुरुदुस्मनरा नार्यं सर्वमासीदचेतनं एवं कष्मलमापन्नं नष्टसंज्ञम् अनायकं ज्ञात्वा गिरा नाम आजगामसनारदः श्रीमदवते महापुराणे ष्ट स्क्र केलापो नाम चतुर्दशोध्याय सर्व गोपी का जीवन गोविंदा गोविंद गोविंद सद्गुनात्मकी जय